मङ्गलश्लोकाः मङ्गलं गणनाथाय मङ्गलं हरसूनवे मङ्गलं विघ्नराजाय विघ्नहर्त्रेस्तु मङ्गलं मङ्गलं भगवान् विष्णुः मङ्गलं मधुसूदनः मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः नमः कमलनेत्राय नमः कमलमालिने नमः कमलनाभाय कमलापतये नमः कल्याणाद्भुतगात्राय कामितार्थप्रदायिने श्रीमद्वेङ्कटनाथाय श्रीनिवासाय मङ्गलम् श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिना निधये श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम्